मकंडेयपुराण अय्रेड एंड थ्री भातुलेखन वर्णनम मकंडेयवाच अथ तस्म ददक संवस्वे प्रसाद प्रणदो भूवा विश्वर्मा प्रजापति वैवस्वतस्तु सम्भूतो मनुस्तस्यां विवस्वतः पूर्वमेव तथाख्यातं तत्स्वरूपं विशेषतः क्रौष्टुकिरुवाच भूयस्तच्छ्रोतुमिच्छामि मार्तण्डस्य महात्मनः चरितं कन्दि यत्पापं कलौ संशृण्वतां नृणां मार्कण्डेय उवाच त्रीण्यपत्यान्यसौ तस्यां जनयामास गोपतिः द्वौ पुत्रौ सुमहाभागो कन्यां च यमुनाम् मुने मनोर्वैवस्वतोज्येष्टश्राद्धदेवः प्रजापतिः तदो यमो यमी चैव यमलौ संबभूवधुः यत्ते जोभ्यधिगं तस्य मार्दण्डस्य विवस्वतः तेनादितापयामास त्रिल्लोकान् सचराचरान् कोलाकारं तु तद्दृष्ट्वा संज्ञारूपं विवस्वतः असहंदीमतेजस्वाम छायां प्रेक्ष्य साब्रवीद संवाच अहम या भद्रम ते स्वे भवनं पिदुहु निर्विस्थेय मच्छा सनाक्षुभे हिमौ बा मह्यम कन्या च वरवर्णिनी सम्भाव्यौ नैव चाख्येयमिदं भगवदे त्वया चायोवाच आकेशग्रहणाद्देवि आशपन्नैव कर्षिचिद आख्यास्यामि मदं तुभ्यं गम्यतां यत्र वाञ्छितं युत्युक्ताच्छायया संज्ञा जगामपितृमन्दिरम् तत्रावसत्पिदुर्गेहे विदुर्गेः शुभेक्षणा भर्तुः समीपं याहीदिपित्रोक्ता सा पुनः पुनः अगच्छद्वडवा भूत्वा निराहारा महामुने पितुः समीपं यादायासंज्ञायावाक्यतत्परा तद्रूपधारिणी छायाभास्करं समुपस्थिता तस्यां च भगवान् सूर्य सं ज्ञेयमिति चिन्तयन् तथैव जनयामासद्वौ सुतौ कन्यकां तथा पूर्वजस्य मनोस्तुल्यसावर्णिस्तेन सोऽभवत् यस्तयोः प्रथमं जातःपुत्रयोर्द्विजसत्तमद्वितीयो यो भवच्चान्यसग्रको भूच्छनैश्चरः कन्याभूत्तपति वव्रे संवरणो नृपः संज्ञातु पार्थिवी तेषामात्मजानां यथा करोत् स्नेहान्नपूर्वजातानां तथा कृतवती सती मनुस्तत्क्षान्तवांस्तस्य यमश्चास्य न चक्षमे बहुशो याच्यमानस्तु विदुःपत्न्या सुदुःखितः स को वै कोपाच्च बाल्या च भाविनोऽर्थस्य वैबलात् पदा सन्दर्जयामास छाया संज्ञां यमो मुने तदशशाप च यमं संज्ञा सामर्षिणीभृशं चायोवाच पदा तर्जयसे यस्मात् पितृभार्यां गरीयसीं तस्मात् तवैव चरणः पदिष्यदि यमस्तुतेन शापेन भृष्यं पीडितमानसः मनुना सह धर्मात्मा सर्वं पित्रेण्यवेदयद् यम उवाच स्नेहेन तुल्यमस्मासु मादादेवनवर्तते विसृज्य ज्यायसोऽप्यस्मान् कनीयां सौ बुभूर्षति तस्यां मयोद्यतः पादो न दु देहे निपातितः बाल्याद्वा यदि वा मोहात्तद्भवान् क्षन्तुमर्हति शब्दोऽकं तादकोपेन जनन्या तनयो यतः ततो न मन्ये जननीमिमां वै तपदाम्बर विगुणेष्वपि पुत्रेषु न मादा विगुणापितः पादस्ते पतदं पुत्र कथमे दत्प्रवक्ष्यति तव प्रसादाचरणो न पदेद्भगवन् यथा मादृशापादयं मेद्य तथा चिन्तय गोपदे रविरुवाच असंशयमिदं पुत्रभविष्यत्यत्र कारणं येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् सर्वेषामेव शापानां प्रदिखादो हि विद्यते नदु तु मात्राभिशब्दानां क्वचिच्चापनिवर्तनं न शक्यमेदन्मिद्यादु माधुर्वचस्तव किञ्चित्तव विधास्यामि पुत्रस्नेहादनुग्रहम् कृमयो मां समादाय प्रयास्यन्ति महीतलं कृतं तस्या वचः सत्यं त्वं चत्रादो भविष्यसि मार्कण्डेय उवाच आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै तुल्येष्वप्यधिकस्नेह एकत्र नूनं नैषां त्वं जननी संज्ञा कापित्वमागता विगुणेष्वप्यपत्ये सुमादा शपेत् सुतं मार्कण्डेय उवाच सा तत्परिहरन्ती च नाचक्षे विवस्वतः स समाधाय युक्तस्तत्त्वमपश्यत तं शप्तुमुद्यतं दृष्ट्वा छायासंज्ञा दिवस्पतिं पयेनकं पिता ब्रह्मण्यथा वृत्तं न्यवेदयद विभप् स्वां स्तु ततः सचापितं श्वशुरमभ्यगाद स सचा दिवाकरं निर्दग्धुकामं सान्द्वयामास सुव्रतः विश्वकर्मो वाच तवादितेजसा व्याप्तमिदं रूपं सुदुःसहम् असकन्दी ततः वने चरति वै तपः द्रक्ष्यतेताम्भवानद्यः स्वभार्यां रूपार्थं भवतोरण्ये चरन्तीम् मुहस्तपः स्मृतं मे ब्रह्मणो वाक्यं यदि देवरोचते दे रूपं निवर्तयाम्ये दत्तव कान्दं दिवस्पदे मार्कण्डेय उवाच यतो हि भास्वदोरूपं प्रागासीत् परिमण्डलम् ततस्तथेदित्तं प्राक्त्वष्टारं भगवान्न्रविः विश्वकर्मा त्वनुज्ञातशागद्वीवे विवस्वतः भ्रमिमारोप्य तत्तेजः साधनायोपचक्रमे भ्रमदा शेषजगदाम्नाभिभूदेन भास्वदा समुद्राद्रिवनोभेदासारुरोहमहीनभः गगनं चाखिलं ब्रह्मन् सचन्द्रग्रहतारकम् अधोगदं महाभागबभुवाक्षिक्षमाकुलं विक्षिप्तसलिलात् सर्वे बभूवुश्च तथाब्धितः व्यभिद्यन्तशैलाशीर्णसानुनिबन्धनाः ध्रुवाधराण्यशेषाणि धिष्ण्यानि मुनिसत्तमात्रुट्यद्रश्मिनिबन्धानि ह्यथो जग्मुसहस्रशः वेगभ्रमणसंजात वायुक्षिप्तासमन्ततः व्यशीर्यत महाोरराववीराविण भास्व्रमण विभ्रा भूम्या काशरसतल जगादाकुम्त्य सीन मुनिम त्रैलोक्ये सकले विप्रभ्रमणे सुरर्षय देवास्थ्रमण साधम भास्वन्दमपि तुष्टुभुः आदिदेवोऽसि देवानां देवा ज्ञातमेधत्स्वरूपतः स्वर्गस्थित्यन्तकालेषु त्रुधा भेदेन तिष्ठसि स्वस्तितेस्तु जगन्नाथ धर्मवर्षा हिमाकर जुषस्वशान्तिं लोकानां देवदेव इन्द्रश्चागत्य तं देवं लिख्यमानं जयदेव यथास्तु वद जय देव जगद्व्याभिञ्जया शेषजगत्पदे ऋषयश्च ततः सप्तवसिष्ठात्रिपुरोगमाः स्वस्ति स्वस्ति वादिनः वेदोक्ताभिरथाग्र्याभिर्वालकिल्याश्चतुष्टुवुः भास्वन्दमृग्भिराद्याभिर्लिख्यमानं मुदायुधाः त्वं नाथमोक्षिणां मोक्षोऽध्येयस्त्वं ध्यानिनां परः त्वं गदिस्सर्वभूतानां कर्मकाण्डेऽपि वर्तताम् शम्प्रजाभ्योऽस्तु देवेश शन्नोऽस्तु जगदाम्पदे शन्नोस्तु द्विपदे नित्यं शन्नश्चास्तु चतुष्पदे ततो विद्याधरगणायक्षराक्षसपनगाः कृताञ्जलिपुडाः सर्वे शिरोभिः प्रणदारविम् ऊचुरेवं विधा वाजो मनःश्रोत्रसुखावहः सह्यं भवतु ते तेजोभूतानां भूतभावना भुदा तदोहा हुहुश्चैव नारदस्तुम्बुरुस्तथा उपगायितुमारब्धा गान्धर्वं कुशलारविम् षड्जमभ्यमगान्धारग्रामत्रयविशारदाः मूर्च्छनाभिश्च तानैश्च सम्प्रयोगैः सुखप्रदं विश्वाची च कृताची च उर्वश्यधतिलोत्तमा मेनका सहजन्या चरम्भा चाप्सरसांवरा विभावसव नृदुर्जगदमीषे लिख्यमने विभासौ ज्ञान भावीलासाढ़ोनया बहून प्रवाद्यत वेणुवीणादिशर्चराणवा पुष्क मृदंगा पड़ह ना दुंदुभयशा शतशोथसहस्रश गाय गाधर्व नृत्यापरो गणल्यवाद कोलाहल तथलिपुटा भक्ति नम्रत्मूर्त लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः ततः तस्मिन् सर्वदेवसमागमे ते ज चक्रे विश्वकर्मा शनैः शनैः हिमजलकर्मकालहे तनुरीखनम निशम्य व्रजदि दिवाकर भानो्रजति दिवाकोकमुषोन्ते श्रीमाकंडेयपुराणे भानुतुखनेधतमोध्याय ओ